धीमेन कार्तवीर्येण वैन्येन न हुष्रेण च तपो योग समाधिस्थैरुद्धृता यापदः प्रजाः तथा त्वमपि धर्मात्मन् कर्मणा विशोधितः तप आस्थाय धर्मेण द्विजातीन्भारत जनमे जय उवाच कथम् कुरूणा वृषभः स राजा युधिष्ठिरः विप्रार्थमाराधितवान् सूर्यमद्भुत दर्शनम् वैशंपायन उवाच शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः क्षणम् च कुरु राजेन्द्र सम्प्रवक्ष्याम् धौम्येन तु तथा पूर्वम् पार्थायसु महात्मने नामाष्टशतमाख्यातम् तच्छृणुष्व महामते धौम्य उवाच सूर्योर्यमा भगस्त्वष्टा पुरुषार्कः गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः पृथिव्यापश्च तेजश्च खंवायुश्च परायणम् सोमो बृहस्पतिः शुक्रो बुधोङ्गारक एव च इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिश्च नैश्चरः ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो यमः वैद्युतो जाठरश्चाग्निरैन्धनस्तेज धर्मध्वजो वेद कर्ता वेदांगो वेदवाहन पृतंत्रेतापर कलिवलाश्रय कलाष्ठा मुहूर्ता क्षपायामस्त क्षण